र्गं सिक्स्टीन् तद किराताधिपतेरलघ्वीमाजिक्रियां वीक्ष्य विवृद्धमन्युः स तर्कयामास विविक्ततर्कश्चिरं क्रामन्दिविक्रान्तनराधिरूढाः स कृष्णवोनेह युधामभिज्ञा नागा न गोच्छ्रायमिवा क्षिपन्तः विचित्रया चित्रय देवभिन्ना रुजं रवेके दनरत्नभासा महारधौके नन सन्निरुद्धाः पयोदमन्द्रध्वनिना धरित्री समुल्लसप्रासमहोर्मिमालं परिस्फुरचामरफेन पङ्क्ति विभिन्नमर्यादमिहातनोदि नाश्वीयमाशा जलधेरिवाम्भः हदा हदे त्युद्धदभिमघोषैः समुज्झिता योद्धृभिरभ्यमित्रं न हृदयप्राप्त तडित्वे षखे विवस्वदां सुज्ज्वलितापदन्ती अभ्यायद सन्दद धूमधूम्रम् व्यापिप्रभाजालमिवान्धकस्य रजप्रदूर्नश्वरथाङ्गनुनं तनोदिनव्योमनि मादरिष्व भूरेणुना रासभूसरेण तिरोहि देवर्त्मनि लोचनानां नास्त्यत्र यजस्विभिरुत्सुकानामग्निप्रदोषसुरसुन्दरीणां रथाङ्गसङ्ग्रीडितमश्यहेशा बृहन्दि मत्तद्विप बृंहितानि सङ्घर्षयोगादिव मूर्छिदानि ह्रादं निगृह्णन्दिनदुन्दुभिनाम् अस्मिन् यस्य पौरुषलोलुपाना मरादिभिः प्रत्युरः संक्षतानां मूर्च्छान्तरायं मुहुरुचिनत्ति नासारशीदं करिषीकराम्भः असृङ्नदीनामुपचीयमानैः विदारयद्भिः पदवीम् ध्वजिन्याः उत्सायमायान्दिन शोणितौघैः पङ्गैरिवास्या नकनैस्तदानि परीक्षदेवक्षसि दन्दिदन्तैः प्रियाङ्गशीदा नभः सस्पदन्दी नेहप्रमोहं प्रियसाहसानाम् मन्दारमाला विरलीकरोदि निषादि सन्नाहमणि प्रभौहे परीयमाणे करिशीकरेण अर्कत्वेषोन्मीलितमभ्युदे न कण्डमाकण्डलकार्मुकस्य महीभृदा पक्षवदेव भिन्ना विगाह्यमध्यं परवारणेन नावर्तमानानि न दन्दिभिमममपां निधिराब इव ध्वजिन्यः महारथानां प्रतिदन्ध्यनीकमधिस्य दस्यन्दनमुद्रितानाम् आमूलूनैरधिमन्युनेव मादङ्गहस्त तैर्व्रियतेन पन्थाः मृदोत्पलापीड इव प्रियायाः शिरोरुहाणां शिथिलकलापः न बरुहभारपतितस्य सङ्गोर्निषादि वक्षस्थलमादनोदि उच्छत्सुसंहार इवास्तसङ्ख्यमह्नायतेजस्विषु जीवितानि लोकत्रया स्वादनलोलजिह्वं नव्या ददात्याननमत्र मृत्युः इयं जदुर्वार महारथा नामाक्षिप्य वीर्यं महदां बलानाम् शक्तिर्ममा वस्य दिहि न युद्धे सौरीवताराधिपधाम्नि दीप्तिः मायास्विदेशामदिविभ्रमो वा ध्वस्तं नु मे वीर्यमुदाहमन्यः गाण्डीवमुक्ता पराक्रमन्तेन सरा किरादे पुंसः पदम् मध्यममुत्तमस्य द्विधेव कुर्वन् नूनं तथा नैषा यथास्य देहि चेष्टा धनु सकृद्विकृष्टा विददेव मौर्वी सन्धानमुत्कर्षमिव व्युदस्य मुष्टेरासम्भेद इवापवर्गे अंसाववष्टब्धनतौ समाधिः शिरोद्धरायारहितप्रयासः दृदा विकारां स्त्यजदामुखेन प्रसादलक्ष्मीशलाञ्जनस्य प्रहीयदे कार्यवशागदेषु स्थानेषु विष्टब्धतया न देहः स्थितप्रयातेषु स सौष्ठवश्च लक्ष्यु पद सदश्य शराूया विवरेग प्रसह्य संरक्षण्रे भीष्मेप्य संभा्यद गुरौ व संभव वने चु अप्राकृतस्याः वधुर्मदस्य निवार्यमस्यास्त्रबलेन वीर्यम् अल्पीयसोऽप्यामय तुल्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः स सम्प्रधार्यैव महार्यसारः सारं विनेष्यन् सगणस्य सा शत्रोः प्रस्वापनास्त्रं द्रुतमाजहारध्वान्दं कनानद्धैवार्धरात्रः प्रसक्तदावानल धूमधूम्रा निरुन्धदिधामसहस्ररश्मेः महावनानीव महातमिस्रा छाया तदानेश बलानि काली आसादिदा तत्प्रथमं प्रसह्य प्रगल्भदाया पदवीं हरन्ती सभेव भीमा विदधे गणानां निद्रानिरासं निरासं प्रदिभागुणस्य गुरुस्थिराण्युत्तमवंशजत्वा द्विज्ञादसाराण्यनुशीलनेन केचित् समाश्रित्य गुणान्वितानि सुहृत्कुलानिव धनुंषितस्तुः कृतान्तदुर्वृत्तयिवापरेषां पुरप्रतिद्वन्द्विनि पाण्डवास्त्रे वतदायुधानि पाणितलानिपेधुक्रियाबलानिव तदायुधानि के भिन्न केचिदभिन्नधैर्याः स्कन्देषु संश्लेषवदां तरूणां मदेन मीलन्नयना सलीलं नागा इव स्रस्तकरा निषेधोः तिरोहितेन्दो रथ शम्भुमूर्ध्नः प्रणम्यमानं तपसां निवासैः सुमेरुशृङ्गादिवबिम्बमार्कं पिशङ्गमुच्चैरुदियायते जः छायां विनिर्धूय तमोमयीं तां तत्त्वस्य संवित्तिरिवापविद्याम् यय विवास दुतिरिंदुमेरालोकम दिशदी गणेभ्यधिपाडलिताबुवा साधपूर्वसरी वध्या निनाय दृतमुल लोचन पंगजानी, विद्रता लोचनपंग पृद्गिध्यम भूय शस् प्रतिपेदी मुक्ता विधेन बलाहता शिरम्या इव दिग्भागा द्यौरुन्नानामेव दिश्यः प्रसेदुः स्फुटं विसस्रेसविदुर्मयोखैः क्षयं गदायामिव यामवत्यां पुनः समीयाय या। दिनं दिनश्रीः महास्त्रदुर्गे शिथिलप्रयत्नम् दिग्वारणेन बरेण ऋग्णे भुजंगश्याभुजशा प्रबंधनाय प्रजिभा जिष्णु जिह्वा शुसयंद्यजस्रं लस तडिलोलिषानला निरस्ता भुजगेन्द्रसेना नभश्च रैस्तत्पदवीं विव्रे दिङ्नागहस्ताकृदि मुद्वहद्भिर्भोगैः प्रशस्तासिदरत्ननीलैः रराज सर्पावली सर्पावलिरुल्लसन्धि तरङ्गमालेव नभोर्नवस्य निश्वासो मई स्थगिताशुजदा मुद्दा गिवास्तम वपुरभ्युवाह विलोचना सुखमुष्णरश्मी प्रदत्चाभासुण दिश प्रकाशेन पिशंगयंद निश्चक्रमुप्राणहरेक्षणानां ज्वाला महोल्का इव लोचनेभ्यः आक्षिप्तसम्पादमपेदशोभमुद्वाह्नि धूमा कुलदिग्विभागं पृदं न भो भोगि कुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे तमाशु चक्षु चक्षुश्रवसां समूहं मन्द्रेण तार्क्ष्योदयकारणेन नेदानयेनेव ने परोपजापम् निवारयामासपदि पशूनां प्रदिनतीभिकृद मीलितानि द्युलोकभाजामपि लोचनानि गरुत्मदाम् संहदिभिर्विहायः क्षणप्रकाशाभिरिवावदेने तदस्तुपर्णव्रजपक्षजन्मा नानागतिर्मण्डलयञ्जवेन जरतृणानिव वियन्निनाय वनस्पदीनां गहनानि वायुः मनःशिलाभङ्गनिभेन पश्चान्निरुध्यमानं निकरेण भासां व्यूढैरुरोभिश्च विनुद्यमानं नभ सर्पे वा पुरकगानां दरीमुखैरासवरागदाम्रं विकासि रुक्मच्छदधामपित्वा जवानिलाकोर्निदशानुजालो हिमाचलः क्षीब इवाचतम्बे प्रवृत्तनक्रन्दिव सन्धि दीप्तैर्नभस्थलं गाञ्च पिशङ्गयद्भिः अन्तर्हिदार्कै परिधपदद्भेष्टया समा चिक्षिभिरेवनानाम् सभोगि सङ्घशममुग्रधाम्नां सैन्येने विनतासुदानां महाध्वरे विध्यपचारदोषः कर्मान्तरेणेव महोदयेन साफल्यमस्े ऋपुपौ भाग्य इवापवर्गन अनंधन से प्रसभम स मनु सत्रं ज्वलन से जिष्णु ऊर्धं रश्चनमश कीज्वाला सड़ाइर्लभंग्री आयस्तसिंहाकृतिरुत्पपाद प्राण्यन्तमिच्छन्निव जादवेदाः द्वित्वे वाभि सवितुर्मयूकाञ्ज्वाल विष्वक् विसृतस्फुलिङ्गः विदीर्यमाणास्म निनादधीरम् ध्वनिं वितन्वन्न कृष कृशानुः चयानि वाद्रीनिव वा तुङ्गशृङ्गान् क्वचित्पुराणीव वा हिरण्मयानि महावनानी च किं शोकानां तदा न वानिक्पवनानुवृत्या मुहुश्चलत्पल्लव शिखाभिःशिखिनो वलीडाः तलेषु मुक्ता विशदा बभूवु सान्द्राञ्जन श्यामरुचः पयोदाः लिलिक्षक्तिवक्षयकालरौद्रे लोकं विलोलार्च शिरोहिताश्वे पिनाकिनाहूत महाम्बुवाहमस्त्रं पुनःपाशभृतप्रणिन्ये तदो धरित्रीधरतुल्यरोधसस्तडिल्लतालिङ्गितनीलमूर्तयः अधो मोखाकाश सरिन्निपादिनिरपप्रसक्त मुमुचु पयो मुचः परा सदध्वस्तशिखे शिखावदो वपुष्यधिक्षिप्तसमिद्धतेजसि कृतास्पदास्तप्त इवायतिध्वनिं पयो निपादाप्रथमे विधेनिरे महानले भिन्नसिदाभ्रपाधिभिः समेत्य सद्यक्वधनेन भेनदां व्रजद्भिरार्द्रेन्धनवत्परीक्षयं जलैर्विदेने दिवि धूमसन्तदिः स्वके दुर्भिपाण्डुरनीलपाडलैः सगदा शक्रधनु प्रभास्थादी दा विभासोि चेना शुकचारुदाष जलौक सम्मूर्चन मूर्चित प्रसक्त विद्युसी दुति प्रशान्तिमेष्यन् धृतधूमण्डलो बभूव भूयानिव तत्र पावकः प्रवृद्ध सिन्धूर्मिचयस्तवीयसां चयैर्विभिन्नाः पयसां प्रपेदिरे उपात्तसन्ध्या पयोदविच्छेदलवै कृशानवः उपैत्यनन्तद्युदिरप्यसंशयम् विभिन्नमूलोऽनुदयाय संशयम् अधाहितो यौकविभिन्नसंहतिः सहव्यवाहप्रयौ पराभवम् अध विहित विधेयैराशु मुक्ता विधानैरसिदनगनिदं पश्यामभासां खनानां विकसदमलधाम्नां प्रापनीलोत्पलानां श्रियमधिकविशुद्धां वह्नि दाहा दिवद्यौः इति विविधमुदास्ये सव्यसाचीयतस्त्रं बहुसमरनयज्ञसादयिष्यन्नराधिं विधिरिव विपरीतपौरुश्रं न्यायवृत्तेः सपदि तदुपनिन्ये ऋक्ततां नीलकण्ठः विधप्रभाव तनुरप्यतनुप्रभावः प्रत्या च काङ्क्षजयनीं भुजवीर्यलक्ष्मीम् अस्त्रेषु भूतपदिना पहृदेषु जिष्णोर्वर्षिष्यदा दिनकृदेव लोकः यदि श्रीभारवि कृतौ किरार्जुनीये महाकाव्ये किजुनयुद्धमोश